ब्रह्मणस्पति शाली सम्मोदकं लड्डूकां रसनारिकेरकदली मण्डक्यकान् पर्पटान् बीजापूरकपित् पायसवरापपामृतानि स्वयम् बिभ्राणं पृथुशकुलीं च पनसं सम्मोदकं पुष्करे कस्तूरीतिलकं सुखासनगतं गजमुखं पीतोत्तरीयं विभुम् नानावर्णविचित्ररक्तकुसुमस्रक्षोभितं सुन्दरं देवं चेतसि मोदकप्रियमजं नेत्रत्रयं चिन्तये